मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं ट्वेण्टि वन् रघुगणसिद्धिप्राप्तिवर्णनं श्रीगणेशाय नमः जडभरत उवाच आहमाङ्गिरसो नाम जडभरधः प्रकथ्यदे स्वायम्भुवश्च भरतोधुना जडश्च तेन वै मा चिन्तां गुरुराजर्षे ह्यज्ञानेन त्वया कृतं हेलनं मम देहस्य पापदं न भविष्यति गच्छ राजन्यथेच्छत्वं मत्तो वै न तव गमिष्यामि स्वतन्त्रोऽकं प्रारब्धेन नियन्त्रितः मुद्गल उवाच तस्य योगीन्द्रमुख्यस्य श्रुत्वा वचनमुत्तमं रघुगण उवाचा दत्तं प्रणम्य महायशाः रघूगण उवाच धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः तपोविद्यायशोदानं तवाङ्घ्रियुगदर्शनाद अहं सिन्धुमहीपालो रघुगण इति स्मृतः राज्यादिविषयं त्यक्त्वा निःसृतो मुनिशत्तम शान्त्यर्थं कपिलं यामि गौदमी गौतमीतीरवासिनं त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः मां शिष्यं तारयमुने योगबोधेन सत्तमा साक्षात् शान्तिं वद वि भो यया शान्दो भवाम्यहम् तस्य तद्वचनं श्रुत्वा कृपया परया युतः जगादतं नृपेन्द्रं स आङ्गिरसो महाद्युधिः शृणुराजन्त्वया पृष्ठं वेदगुह्यं च दुर्गमं कथयामि तथापि योगशान्तिकरं परम् देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः भ्रान्त्या भिन्नत्वमाश्रित्यैकोऽपि बाधितदात्मकः देहानां ब्रह्म यत्प्रोक्तं बिन्दुमात्रं च दृश्यते देहीनां ब्रह्मरूपं वैसोहं मात्रात्मकं किल तयो तयोः संयोगयेवासौ बोधात्मक उदाहृतः स्वतोद्धानमिदं ब्रह्मविकल्पाद्विविधं मदम् बोधनाशे महीपालवुद्धानं जायते न च साङ्ख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् यत्र परसुखं नास्ति तत्र वै स्वसुखं कथं तदपरदुद्धानयुक्तं ब्रह्मप्रकीर्तितं तत्रोत्थानस्य बीजं यष्टितं भिन्नात्मकं परं स्वसौख्यनिष्ठरूपं हि ही बोधहीनप्रभावदः स्वतःपरद उत्थानहीनं स्वानन्दवाचकं संयोगाभेदरूपं वै जानीहि नृपसत्तमा स्वानन्दपञ्चभेदं च स्वयं सर्वत्र संस्थितं सत्यासत्यसमं चेदि नेदिरूपं चतुर्थकं स्वदःपरद उद्धानमेदन्नामप्रकीर्दितम् तयो तयोरनुभवो यस्यात्तस्य रूपं तदेव च ताभ्यां नानाविधं ब्रह्मानाधिवेदे प्रकीर्तितं जगन्नाविधं तद्वजानीहि नृपसत्तम नामरूपमयं सर्वमसत्यं परिकीर्तितं शाक्तं ब्रह्म समाख्यादं वेदेवै वेदेवैवेदवादिभिः नामरूपात्मकं यत्तत्सदा खण्डमयं स्मृतम् अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकं तयोरभेदकर्तासौ विष्णुरानन्दसञ्ज्ञिदः द्वयोः समं च तद्ब्रह्मभावाभावमयं परं त्रिभिर्हीनं तुरीयं जन्नेऽधिकर्ता शिव स्मृतः अव्यक्तमोहीनं यत्स्वाधीनं ब्रह्म तन्मदं चतुर्णां चैव संयोगो यत्राभेदमयस्मृतः स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः संयोगनाशकारी चायोगः सर्वत्र सम्मदः निर्मायिको गणेशसकथितो योगिभिर्नृप अयोगे योगिनां राजन्निवृत्तिरुपजायते स्वकीय भेदहीनत्वात् तद्ब्रह्मायोगसंज्ञकम् अत एव स्वनाशाख्यनिवृत्त्या तच्च लभ्यते मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् अयोगश्चैव संयोगो योगे तौ न प्रपश्यति तदेव गणनाधो योगशान्तिमयस्मृदः मायायुक्तश्च माया मायावी मायाहीनश्च केवलः तदेव भ्रान्तिमात्रम् योगिभिः सदा चित्तम् पञ्चविधम् प्रोक्तम् तदैश्वर्यम् महामदे मोहदम् द्विविधं त्यक्त्वा शान्तिरूपो भविष्यसि यवमुक्त्वा महायोगी विररामप्रजापते सोपितं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ एवं रघुगणो राजा साधयित्वा विधानतः शान्तिं प्राप्तो महातेजा गणपत्यो बभूवः ओम तत्सदिति श्रीमदान्त्ये पुराणोपनिषदिश्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते रघूगणसिद्धिप्राप्तिवर्णनं ना नामै कविंशोऽध्यायः ओम्